एकोनसप्ततितमोऽध्यायः द्रौपद्युवाच पुरस्तात्करणीयम् मेन कृतम् कार्यमुत्तरम् विह्वलास्मि कृतानेन कुरु नमेस्यादपराधोयं अभिवादम् मया वैशंपायन उवाच साते च समाधूता दुःखेन च तपस्विनी पतिता विलला पेदम् सभायामतथोचिता द्रौपद्युवाच स्वयम्वरे यास्मिन्नृपैर्द्रष्टारङ्गे समागतैः न द्रष्टपूर्वाचान्यत्र साहमद्य सभाङ्गता यान्न वायुर्न चादित्यो द्रष्टवन्तौ पुरा गृहे साहमद्यसभा मध्ये द्रश्यास्मि जनसंसदि यान्न वृष्यन्ति वा तेन स्पृश्यमानाम् गृहे पुरा स्पृश्यमानाम् सहन्तेऽद्य पाण्डवास्ताम् दुरात्मना मृष्यन्ति कुरवश्चेमे मन्ये कालस्य पर्ययम् स्नुषाम् दुहितरम् चैव क्लिश्यमानामनर्हतीम् किन्वतः भूयो यदहं स्त्री सती शुभा सभामध्यं विगाहेद्य क्वनु महीक्षिताम् धर्म्याम् स्त्रियम् सभाम् पूर्वे न नयन्तीति न श्रुतम् स कौरवेयेषु पूर्वो धर्मः सनातनः कथम् हि भार्यापाण्डूनाम् पार्षतस्य स्वसा सती वासुदेवस्य च सखी पार्थिवानाम् सभामियाम्